नारदपुराणम् उत्तरार्थम् अध्यायम् 81 वन् वसुरुवाच यदेतत्कीर्तिदं देवी तीर्थमाहात्म्यमुत्तमं पल्लभस्वमहाभागे चरित्वा तीर्थमण्डलम् अहं ब्रह्माण मामन्द्र्य पितरं ते नरेश्वरि वृन्दावनमुपागम्य हरिष्यामि मृगैः सुद उवाच इत्युक्त्वा मोहिनीं विप्रा वसुस्तस्य पुरोहितः सत्कृत्य पूजितो भीक्ष्णम् ब्रह्म लोकम् ययौ तथा सगत्वा गत्वा तत्र धातारम् ब्रह्मणम् जगदाम् विधिम् प्रणम्य मोहिनी वृत्तम् तम् कार्ष्ण्येनवेदयद तच्छ्रुत्वा वदनं ब्रह्म ब्राह्मणस्य वत्सोर्द्विजाः प्रसन्नप्राहतं वत्स सुकृतं हि या मया मोहिनी विप्रदेव कार्यार्थमात्मजा नियुक्ता कृतकार्या गता भूयो ममाज्ञया वत्स त्वया नीता कृतार्थता तस्मात् कोऽन्यस्तोत्तोऽधिककृ यत्वया, ब्रह्ममाख्यातं मोहिनीवृत्तमुत्तमं प्रसन्नस्तेन दास्यामि ब्रूहितुभ्यं वरं द्विज इत्युक्तः सद्विजस्तेन प्रणम्य वव्रे सवरं वृन्दारण्यनिवासनम् तच्छ्रुत्वा जगदान्दा स्मयमान चतुर्मुखः प्राहप्रसन्नार्तिहरस्तदास्त्विधि मुनीश्वराः सप्रणम्य विधाधारं वसोकृष्टमनास्ततः वृन्दावनमुपाव्रज्य तपश्चक्रे समाहितः तपतस्तस्य दु वत्सो संवत्सरगणाद्विजाः व्यधीयु पञ्च हस्रस्तदस्तुष्टो हरिस्वयम् बोभ्यैप्रियसखैर्द्वित्रायर्युदोभ्याः द्विजोतमम् ब्रूहि किं वृणुषे विप्रतुष्टोऽ तपः सा तव तद स वसुहृद्धाय अष्टाङ्गालिङ्गिता वनिः प्रासवृन्दावने देव वासमिच्छामि सर्वदा अध विष्णुर्द्विजश्रेष्ठवरं तद्वांचितं ददौ तेनाभिवन्दितो भूयो यन्तर्धानमुपागतः स्वेच्छारूपधरस्थितः चिन्तयन् सततं देवं वृन्दारण्यकुतूहलं कदाचिन्त्यमुनातीरे निविष्टस्थं विचिन्तयन् ददर्शनारदं प्राप्तं वृन्दारण्यं विधे सुदं दृष्ट्वा नमस्कृत्य परमं गुरुमात्मनः पप्रच्छ विविधान् धर्मान् भगवद्भक्तिवर्धनान् सदेनैवं सुसम्पृष्टो नारदोऽध्यात्मदर्शनः तस्मै प्रोवाचनिखिलं भविष्यच्चरितं हरेः ये कदा गतो विप्र देवं कै सा सवासिनं द्रष्टुं द्रष्टुं भविष्यच्च वृन्दावनरहस्यकम् तदप्रणम्य देवेशं तद सिद्धैः समावृतं महेशं स्वमहि अप्रच्छमीप्सितं भद्रं समां प्राहस्मयन्हरः वैधात्र यत्त्वया पृष्टं हरेर्वृत्तमनागतं तत्ते ब्रवीमि यत्पूर्वं श्रुतं सुरभिवक्त्रतः यगदा सुरभिर्दृष्टा मया गोलोकमध्यगा स्वसन्तानसमायुक्ता सुप्रिणा स्निग्धमानसा तदपृष्टा भविष्यार्थे गवां मादापयस्विनि मह्यं प्रोवाच देवशे भविष्यचरितं हरेः सुखमास्थेधुना देवकृष्णो गमन्वितः गो लोकेऽस्मिन्नहेशान गोपगोपी सुखावहः स कदाचिद्धरलोके माधुर्ये मण्डले शिव आविर्भूयाद्भूतां क्रीडां वृन्दारण्ये करिष्यति वृतभानुसुधा राधा श्रीधा मानं हरे प्रियं सकायं विरजागेकध्वास्थं क्रुद्धा शपिष्यति तदसोऽपि महाभागराधां प्रदि शपिष्यति या हि लोकं मिथशापाधरां ततः प्स्यत्य हरिः पश्चाद्ब्रह्मणा प्रार्थितः क्षितौ भूभारहरणायैव वासुदेवो भविष्यति वसुदेवगृहे जन्म प्राप्य यादवनन्दनः कंसासुरभिया पश्चाद्व्रजं नन्दस्य यास्यदि तत्र यादव हरिप्राप्तं पूदनां बालकादिनीम् वियोजयिष्यति प्राणैश्चक्रवादं च दानवं वत्सासुरमहाकाव्यं हनिष्यदि सुरार्दनं दमित्वा कालीयं नागम्यम्या उच्चाडयिष्यति दुस्तकं तेनुकं हत्वा वकं न द्वदखासुरं दावं प्रदावं च तेधा प्रलम्बं च हनिष्यति ब्रह्मणमिन्द्रं वरुणं प्रमत्तौ धनदात्मजो विमदांसविधाये श्वो हनिष्यति वृपासुरं शङ्खचूडं केशिनं च व्योमं हत्वा व्रजेवसन्त्यकादशसमास्तत्र गोपीभिः क्रीडायिष्यति ततश्च मधुरं प्राप्य रजकं संनिहत्यज कूब्जा मृज्वीं तद कृत्वा गजोत्तमम् अत्वा कुवलयाफं मल्लांश्चाणूरकान्दिकान् पं सं स्वमादुलं कृष्णो हनिष्यति ततः परं विमुच्यपितरौ वद्धौ यवनेशं निहत्य जरासन्दभयात् कृष्णो द्वारकायां समुष्यदि रुक्मिणीं सत्यपामां च सत्यां जाम्भवदीं तथा कैकेयीं लक्ष्मणां मित्रविन्दां कालिन्दीकां विभुः दारान् षोडशसहस्रान् भौमम् हत्वोद्वहिष्यति पौण्ड्रकं शिशुपालं च दन्तवस्त्रं विदुरथं शाल्वं जहत्वा द्विविधं बल्वलं खादयिष्यति वज्रनाभं सुनाभं च सार्धं वै षट्पुरालयैः त्रिशरीरं ततो दैत्यं हरिष्यति वरोर्जितं कौकान् पाण्डवांश्चाभिनिमित्तमितरेतरं कृत्वा हनिष्यति शिवभूभारहरमोत्सुकः यदून्यदुभिज्ञोऽन्यं संभृत्य स्वकुलं हरिः पुनरेदन्निजं धाम समेष्यति च सानुगतिभिहितं शम्भो भविष्यच्चरितं हरेः गच्छद्रक्ष्यसि तत्सर्वं जगदि तलगे हरौ तच्छ्रुत्वां सुरभैर्वाक्यं भृशं प्रीतो विधा तृजा स्वस्थानं पुनरायातस्तुभ्यं चाभिमयोदितं त्वं च द्रक्ष्यामि कालेन चरितं गोकुलेशिदुः तच्छ्रुत्वा सूरिनो वाक्यं वा सुदृष्टतनूरुहः कायन्माद्यन्विभुं तं त्रिया रमयाम्यादुरं जगद ये द भविष्यत्कथितं मया तुभ्यं द्विजोत्तम यधादु गौतमस्तद्वदहं चापि हिदेरदः सूद उवाच इत्युक्त्वा नारदस्तस्मै वत्सवे सद्विजन्मने जगामवि नारणयं चिन्दयन्यदनन्दनं स वत्सुस्तद्वच श्रुत्वा व्रजे सुप्रीदमानसः उवास सर्वदा विप्राः कृष्ण क्रीड़े क्षणत्सुक यी बृत नरदीपुराणे बृतदुपाख्याभागे वसुमोहिनी संवाद वसुचरित्रूपण नाई काशीतमोध्याय ओम